ते तत्र विविधान् दायान् विजयार्थम् नरेश्वराः प्रदास्यन्ति धनङ्गाश्च भक्ष्यम् भोज्यम् च सर्वशः प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयम्वरम् अनुभूयोत्सवम् चैव गमिष्यामो यथेप्सितम् नटा वैतालिकास्तत्र नर्तकाः सूतमागधाः नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः एवम् कौतूहलम् कृत्वा दृष्ट्वा च प्रतिगृह्य च सहास्माभिर्महात्मानः पुनः प्रतिनिवत्स्यथ दर्शनीयांश्च वः सर्वान् देवरूपानवस्थितान् समीक्ष्य कृष्णा वरयेत् सङ्गत्यैकतमम् वरम् अयम् भ्राता तव श्रीमान् दर्शनीयो महाभुजः नियुज्यमानो विजये सङ्गत्या बहु आहरिष्यन्नयम् नूनम् प्रीतिम् वो वर्धयिष्यति युधिष्ठिरौ उवाच परमम् भोगमिष्यामो द्रष्टुम् चैव महोत्सवम् भवद्भिः सहिता सर्वे कन्यायास्तम् स्वयंवरम् इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि पाण्डवागमने त्र्यशीत्यधिकशततमोऽध्यायः